गरुडपुराणम् आचारकाण्डम् अध्यायम् टु हण्ड्रेड् अण्ड् फोर्टीन् ब्रह्मोवाच अथस्नानविधिं वक्ष्ये स्नानमूला क्रिया यतः मृद्गोमयतिलान् दर्भान् पुष्पाणि सुरभीणि च आखरे स्नानकाले च स्नानार्थो प्रयतशुचिः गन्धोदकान्तं विविकृते स्थापयेदन्यक्षितौ त्रिधा कृत्वा मृदं तान्तु गोमयं च विचक्षणः अद्भिर्मृद्भिश्च चरणौ प्रक्षाल्याधकरौ तथा उपवीदि बद्धशिव सम्यगाजम्यवाग्यदः उरुं राजे शादमे शादमे ओम उरुं राजेत्यर्च तोयमुपस्थाय प्रदक्षिणम् आवर्तये तदुदगं येदे शदमेत्यर्च शदमेदिर्च ॐ उरुं हि राजावरुणश्चकारसूर्याय पन्थानमन्वेदव प्रदिदादा च वक्तारस्ता हृदया विपश्चिद नमोऽग्न्य नमोऽग्न्यरुणाय भिष्टुतो वरुणस्य पाशः वरुणाय नमः ॐ ये ते शतं वरुण सहस्रं यज्ञिया पाश्चा विददा महान्तः ते भिर्नो अद्य सवितोद विष्णुर्विश्वे मुञ्जन्तु मरुतः स्वर्पा स्वाहा सुमित्रियान इत्यभञ्जलि मा प्रत्योत्तरेण तोयं पश्चाद्विराज्य चैव विनिः क्षिपेध ॐ सुमित्रियान आप ओषधयः दुर्मित्री ह्यास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्जवयं द्विष्मः पादौ कडिं चैव पूर्वम् मृद्भिस्तृभिस्तृभिः हस्तावाजम्या नमस्कृत्य जलम् ततः ॐ इदम् विष्णुर्विचक्रमे त्रेधा निधेपदं समूढमस्य पांसुरे महाव्याहृधिभिः पश्चादाजामेत् प्रयदोऽपि सन् मार्जयद्वै मृदङ्गानि इदं विष्णुरिदित्वर्चा भास्कराभिमुखो मज्जेदापो अस्मानिदित्यर्च ॐ आपो अस्मान्मादरक्षुद्धयन्तु कृते नो कृतश्वः पुनन्तु विश्वं हि रिप्रं प्रवहन्ति देवी रुदादिभ्युचिरापूदयेमि तदो वृकृष्यपत्राणि निमज्ज्योन्मज्यवै शनैः गोमयेन विलिप्याध मानस्तोक इत्यरुच ॐ मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेश्वरीरिषः मानो वीरान् रुद्रभामिनो वधीर्हविष्मन्दः सदमित्वा हवामहे ततो भिषिञ्जेन्मन्द्रयिस्तु वरुणैस्तु यथा क्रमम् इमं मे वरुणे द्वाभ्यां त्वन्नः सत्वन्न इत्यपि आपो तन्तुमसीति आपो त्वन्तुमसीति च मुञ्जन्त्वव भृतेति च ॐ इमं मे वरुणश्रुदीहव मद्याजमृडयत्वा मवस्युराचके ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदास्ते यजमानो हविर्भैः अहेडमानो वरुणे हबोद्युरुशम् समान आयुप्रमोषीः ॐ तन्नो अग्ने वरुणस्य विद्वान् देवस्य अहेडो अवयासिष्ठः जिष्टो वन्यतमशोच्युचानो विश्वा द्वेषांसि प्रमुग्रियस्मत् स्वाहा ॐ स त्वन्नो अग्ने नेदिष्टो अस्या उषसोऽव्युष्टौ अवयक्ष्वनो वरुणम्ररणो वीहिमृडिगं सुहवो नयेधि ओमापोनौषधिहिंसार्ध्मनो राजस्तदो वरुणो नोमुञ्ज यदा हरज्ञ्या इति वरुणे दीशपार्महे तदो वरुणनोमुञ्ज ॐ उदुत्तमं वरुण पाशमस्मदवधमम् विमध्यमं श्रधाय, अथा वय मादित्यव्रते तवा नागसो अधिदयेष्याम मुञ्जन्तु मामप्यधाद्वरुणस्य त्वद अहोयमस्य पत्नी मानः सर्वस्मा देव किल्बिषाद अवभृतनिजं पुनर्विचेरुषि नित्यम्पन्नः अव देवकृता मनो यासि समवत्यै कृतं पुष्पा च देवधीमल्पाहि अभिषिच्य तथात्मानं निमज्ज्याच निमज्ज्याचम्य वै पुनः दर्भेण अलिङ्घै पावनैरिमैः आपोखिष्ठेदि तिसृभिरिदमाभो हविष्मदीः देवीराप यदि द्वाभ्याम् आभो देव इदि त्यरुच द्रुपदादिव इति च शन्नो देवीरभां रसः आभो देवो पावमन्यपुनन्त्वाद्या ऋचो नव चित्पधिर्मेति शहै प्राव्यात्मनम् समाहिदः हिरण्यवर्णा इति च पावमान्यस्तथा पराः तरत्सामा शुद्धवत्यपवित्राणि च शक्तिदः वारुण्या बहव पुण्याशक्तिदः सम्प्रयोजयेत् ओङ्कारेण व्याहृदिभिर्गायत्रिया च समन्वितः आदा वन्दे च कुर्वीद अभिषेकम् यथा क्रमम् जलमध्यस्थितस्यैव मार्जनम् तु विधीयते अन्तर्जले जपेन्मन्त्रम् त्रिकृत्वा चाकमर्शनम् द्रुपदाद्यास्त्रिरावर्तेदयम् गौरिदि च त्र्यर्चम् अन्यांश्चैव तु मन्त्रान्वा स्मृदि दृष्टान् समाहिदः सव्याहृदिं सप्रणवां गायत्रीं वा जपेद्बुधः आवर्तयेद्वा प्रणवम् स्मरेद्वा विष्णमव्ययम् विष्णोरायतनं त्वापत्स देवापदिरुच्य दे तस्यैवं तनवस्त्वेदास्तस्मात्तं ह्यप्सु संस्मरेद तद्विष्णोरिति मन्त्रेण निमज्ज्यात्सु गायत्री वैष्णवी ह्येष संस्मरणाय वै ॐ इदमा इदमापप्रवहदा स्वमलं क्षाललोहितं यथा त्वहोत्रामृतं यच्च शोभे अभीषणम् आपोमा तस्मादेन स पावमानश्च मुञ्जतु यिविष्मदो विमा आपोह विष्माना विरासति हविष्मान् देव असुरो हविष्मानस्तु सूर्यः देवीरापो अपापत्न्यायश्च ऊर्मिर्हविष्यः इन्द्रियवान् मादित्यन्धस्थं देवेभ्यो देवदा दास्भु शुक्रलेभ्यस्तेषाम् भागकर्षि वसि समुद्रस्य दक्षिण्याग्रयासि मेनो मे नापोऽग्रर्भिरस्मात मोधोः आपो देवी मधुमदिर गृह्णन्दुह्यन्नदी राजस्वतिला याभिर्मित्रावरुणस्य सिञ्चयाभिरिन्द्रमनयत्यन्नवादी द्रुपदां शनो देवी अपामश्रीद्वयः संसूर्ये सन्तं समाहितम् अपां रसस्य योरस्य यो, यो गृह्णास्युत्तमम् आपो प्रजाभ्यस्तासा वयस्यायप्रजाभ्यस्ता सा मास्तान सु पिपिलाः पुनन्ु मापितरः सौम्या स पुनन्द्वनापिता सहसा पवित्रेण गदायुषः पुनन्तु मा पिदामः पुनन्तु प्रपिदामहः पवित्रेण गदायुष विश्वमायुर्व्यश्रवैः अग्न आयूंषि परः सत्मा चरोर्जमिषञ्च त्वचे वावस्व त्वच्छूनां पुनन्तु मा देवजना पुनन्तु मनसाधियः पुनन्तु विश्वाभूतानि जादवेदः पुनीहि मा पवित्रेण पुनी देवदीद्यद अग्ने प्रत्वा प्रदूं रनु यत्ते पवित्रमर्च्यश्वाग्ने विदधमन्तरा ब्रह्मदेन पुनादुमा पवमानसुवर्जनः पवित्रेण विचर्षणिः यपो दास पुनादुमा उभाभ्यां देव सविदः पवित्रेण सवेन च इदं ब्रह्मपुनीमहे वैश्वदेवीं पुनती देव्या गृघ्नास्यामि सावक्ष्यस्तान्नो वीदपूज्याः तयामदन्तः सधमादेशु वयं श्यामपदयोरयीणां चित्पदिर्म पुनः त्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तस्य ते यत्कामः प्रणीतश्चखेयं देवो वाक्पतिर्मा सविदा छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तस्य दे पवित्रपदे पवित्रपुदस्य चकामः पुनस्तच्चकेयं द्रुपदीं द्युपदिम् अयं गौ प्रश्रीराक्रमीसदशतमादरं पुनः पितरं प्रयस्मः देवो मासविदा पुनः त्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तस्य दे पवित्रपदे पवित्रभूतस्य यत्कामत् पुनास्तकेह्यम् ॐ तद्विष्णो परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम् स्नात्वैवं वससि धौदे अच्छिन्ने परिधाय प्रक्षाल्यज प्रक्षाल्य मृदाद्भिश्च हस्तौ प्रक्षाल्य वैतदा आचान्दे आचान्दे पुनराजामेन्मन्त्रेण स्नानभोजने द्रुपदां च त्रिरावर्त्य तथा चैवाकमर्षणम् आचम्याप्लाव्यजात्मानं त्रिराजम्यशनेरसून् अधोपतिष्ठेदादित्यमूर्ध्नि पुष्पान्विताञ्जलिः प्रक्षिप्योदक मद्धूय उदित्यम् चित्रमित्यपि तच्चक्षुर्देव इति च कंसत् श्युचिषदित्यपि येदाञ्जपेदूर्ध्वबाहु सूर्यमीक्ष्य समाहितः गायत्रीम चथा श्रिया उपस्थ्य दिवाक बिभ्राड़िवाकसल तथा मंडलब्राह्मणे चिव्या कीर्त्या तथा चान्य सौरम्रैशक्रिद जपय कर्तव्यसदेव प्रणीतक अध्यात्मविद्यां विधिवत् जपेद्वा जपसिद्धये सव्यं कृत्वा त्रिराजम्य श्रियमेधां धृतिं क्षीतिं वाजम् वागीश्वरम् पुष्टिं तुष्टिश्च परितर्पयेद् उमामरुन्धतीं चैव शचीं मातरमेव च जयां च विजयां सावित्रीं शान्धिमेव स्वाहां स्वधाम् हृदिम् जैव तथै वादितिमुत्तमाम् ऋषिपत्नीश्च mm -hmm. कन्याश्च तर्पयेत् काम्यदेवताः सर्वमङ्गलकामस्तु तर्पयेत् सर्वमङ्गलाम् आब्रह्मस्तम्बपर्यन्तम् जगतृप्यत्विदम् ब्रुवन् क्षिपेदपोञ्जलीं स्त्रींश्च कुर्वन्काङ्क्षेदतर्पणम् इति श्रीगारुडे महापुराणे आचारकाण्डे स्नानविधिविवरणम् नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् फिफ्टीन् वाचा तर्पणं सम्प्रवक्ष्यामि देवादिपितृतुष्टितम् ॐ मोदास्तृप्यन्ताम् ॐ प्रमोदास्तृप्यन्ताम् ॐ सुमुखास्तृप्यन्ताम् ॐ दुर्मुखास्तृप्यन्ताम् ॐ विघ्नास्तृप्यन्ताम् ॐ विघ्नकर्तारस्तृप्यन्ताम् ॐन्तांसि तृप्यन्ताम् ॐ वेदास्तृप्यन्ताम् ॐषधयस्तृप्यन्ताम् ॐ सनातनस्तृप्यदाम् ॐ इतराचार्यास्तृप्यन्ताम् ॐ संवत्सरसावयवस्तृप्यदाम् देवास्तृप्यन्ताम् ओम् अप्सरसस्तृप्यन्ताम् ॐ देवान्धकास्तृप्यन्ताम् ओम् सागरस्तृप्यन्ताम् ओम् नागास्तृप्यन्ताम् ओं पर्वतास्तृप्यन्ताम् ॐ सरिन्मनुष्या यक्षास्तृप्यन्ताम् ॐ रक्षांसि तृप्यन्ताम् ॐ पिशाचास्तृप्यन्ताम् ॐ सुपर्णास्तृप्यन्ताम् ॐ भूदानि तृप्यन्ताम् ॐ भूतग्रामाश्चतुर्विधास्तृप्यन्ताम् ॐ दक्षस्तृप्यन्ताम् ॐ दक्षस्तृप्यताम् स्तृप्यधाम् ॐ मरीचिस्तृप्यधाम् ॐ अत्रिस्तृप्यधाम् ओम् अङ्गिरसास्तृप्यधाम् ॐ पुलस्त्यस्तृप्यधाम् ओं पुलपस्तृप्यदाम् ॐ क्रदुस्तृप्यधाम् ॐ नारदस्तृप्यदाम् ॐ भृगुस्तृप्यदाम् ॐ विश्वामित्रस्तृप्यदाम् ॐ रैवतस्तृप्यदाम् ॐ चाक्षुषस्तृप्यदाम् ॐ महातेजास्तृप्यदाम् ॐ वैवस्वतस्तृप्यदाम् ॐ ध्रुवस्तृप्यधाम् ॐ धवस्तृप्यदाम् ॐ अनिलस्तृप्यदाम् ॐ प्रभासस्तृप्यदां नीवीती ॐ सनकस्तृप्यदाम् ॐ सनन्दनस्तृप्यदाम् ॐ सनातनस्तृप्यदाम् ॐ कपिलस्तृप्यदाम् ॐ आसुरिस्तृप्यदाम् ॐ वोढुस्तृप्यदाम् ॐ पञ्च शिखस्तृप्यताम् ॐ मनुष्याणां कववाहस्तृप्यदाम् ॐ अनलस्तृप्यन्ताम् ॐ सोमस्तृताम् ॐ यमस्तृप्यदाम् ॐ अयमास्तृप्यदाम् प्राचीनावीति ॐ अग्निष्वात्ताः पितरस्तृप्यन्दाम् ॐ सोमपाः पितरस्तृप्यन्दाम् ॐ बर्हिषदः पितरस्तृप्यन्दां यमाय नमः धर्मराजाय नमः मृत्यवे नमः अन्धकाय नमः वैवत्स्वदाय नमः कालाय नमः सर्वभूदक्षयाय नमः औदुम्बराय नमः दध्नाय नमः नीलाय नमः परमेष्ठिने नमः मृगोदराय नमः चित्राय नमः चित्रगुप्ताय नमः ब्रह्मादिस्तम्भपर्यन्तं जगत्तृप्यतु ॐ पितृर्भ्यस्वा ॐ पितृर्भ्यस्वधा नमः ॐ पिता महेभ्यस्वधा नमः ॐ प्रपिता नमः ॐ मातृभ्यस्वधा नमः ॐ पिता नमः ॐ प्रपिदा महेभ्यस्वधा नमः ॐ मादा महेभ्यस्वधा नमः ॐ प्रमादा महेभ्यस्वधा नमः ॐ वृद्धप्रमादा महेभ्यस्वधा नमस्तृप्यदामिरि उदीरतामवर उत्परासो उन्मध्यमाः पिदरः सौम्या सह ई युरवृका हृतज्ञास्तेनो वन्तुपितरोहवेषु च गोत्रोच्चारणेन प्रथमाञ्चलिपिदुः ॐ अङ्गिरः सो नः अधर्वणो भृगवः ऋधृ तेषाम् वयं सुमदौ यज्ञियानाम् अपि भद्रे सौमनसे आयन्तु नः पिदरसौम्या सोऽग्निष्वात्ताः पथिभिर्देवयानैः अस्मिन् यज्ञे स्वधयाम ते वन्द्वस्मान् ॐ ओजम्बसन्धिरमृतं हृदम् पहकिलालम् परिश्नुदं स्वधास्त तर्पयद मे पितॄन् ॐ पितृभ्यस्वधा नमः ॐ पिधामहेभ्यस्वधा नमः ॐ प्रपिदामहेभ्यस्वधा नमः ॐ मादामहेभ्यस्वद्धा नमः ॐ प्रमादामहेभ्यस्वधा नमः ॐ वृद्धप्रमादामहेभ्यः नमः पिता महस्यदृम् अक्षन्पितरो अमी मदन्तपितरो अमी तृप्यन्तपितर शुं धन्वं पिबेह पितरोऽपि वानत्रयांश्च विश्रयांश्च भवनपवित्रत्वारथपतिते जादवेदाः स्वधाभिर्यज्ञम् सुहृतं जपस्व ॐ तु वादाृतायते मधुक्षरन्दिसिन्धवः माध्वीर्न सन्दोषधीर्मधुनः कृमुदो शासो मधुमत्पार्थिवं रजः मधुद्यौरस्तु नः पिता मधुमन्यो वनस्पतिर्मधुभामस्तु सूर्यो माध्वीर्गावो भवन्तु नः प्रपिता महस्याञ्जलिदानम् ॐ नमो वः पिदरो रसाय नमो वः पिदर सुष्माय नमो वः पिदरो जीवाय नमो वः नमो पिदरो घोराय नमो वः पिदरो मन्यवे नमो वः पिदरो गृहान्न पितरो दत्तः नमो वः पिदरो दध्मे तद्वपिदरो वासः मादामहानां त्रिरञ्जलिदृ तदो मात्रा दीनान् दृ ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ते तृप्यन्तुमया दत्तं वस्त्रनिष्पीडनोदकम् इति श्रीगारुडे महापुराणे आचारकाण्डे देवादितर्पणनिरूपणं नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ओम् अध्यायं 216 हण्ड्रेड् अण्ड् सिक्स्टीन् वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमं प्रज्वाल्यचाग्निं पर्युक्ष्य ॐ कृश्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाह इहैवाय्यमितरो जादवेदा देवेभ्यो हव्यं वहदु प्रज्जनाद ॐ पावक वैश्वानर इदमासनम् अरणि गर्भसंस्कृत तेजोरूप महाब्रह्म मुहूर्ता त्रिषु वैश्वानरं प्रबोधयामि ॐ वैश्वानरेण उभयम् आप्रयादु परा वदः अग्निर्न स्वद्युतीरूपप पृष्ठो दिवि पृष्ठोऽश्वि पृथिव्यां पृष्ठा विवेव ओषधी चा विवेश वैश्वानरसहसा पृष्ठोऽग्निर्नामो पृष्टोऽग्निः नमो दिव्यसष्टां नक्दकम् ॐ प्रजापदये स्वाहा ॐ सोमाय स्वाहा ॐ बृहस्पदये स्वाहा ॐ अग्निशोमाभ्यां स्वाहा ॐ इन्द्राग्निभ्यां स्वाहा ॐ द्यावापृथिवीभ्यां स्वाहा ॐ इन्द्राय स्वाहा ॐ विश्वेभ्यो देवेभ्यो स्वाहा ॐ ब्रह्मणे स्वाहा ॐ अद्भ्यः स्वाहा ॐ ओषधिवनस्पदिभ्यः स्वाहा ॐ ग्रह्याय स्वाहा ॐ देवदेवताभ्यः स्वाहा ॐ इन्द्राय स्वाहा ॐ इन्द्रपुरुषेभ्यः स्वाहा ॐ यमाय स्वाहा ॐ यमपुरुषाय स्वाहा ॐ सर्वेभ्यो भूदेभ्यो दिवाचारिभ्यः स्वाहा ॐ वसुधा पितृभ्यः स्वाहा ॐ ये भूता प्रचरन्ति दीना च भुवनस्य मध्ये तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टि पुष्टिपतिर्दाद आचांडालप आचांडाल पदवायसेूडे महापुराणे आचारकांडे वैश्व नाम षोडशोत्तर शतमोध्याय ओं अध्यायं टु हण्ड्रेड् एण्ड् सेवेन्टीन् श्री गरुडमहापुराणं ब्रह्मो वा च अथ सन्ध्याविधिं वक्ष्ये द्विजातीनां समासदः अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यस्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरशुचिः गायत्री चन्दो विश्वामित्र ऋषिस्त्रिपाद समुद्राकुक्षिचन्द्रादित्यौ लोचनौ अग्निर्मुखं विष्णोर्हृदयं ब्रह्मरुद्रौ शिरः रुद्रशिखा उपनयने विनियोगः ॐ भूः पादे भुवः जानुदि स्वः हृदये महः शिरसि जनः शिखायां तपःकण्डे सत्यं ललाडे ॐ हृदयाय नमः ॐ भू शिरसे स्वाहा ॐ भुवः शिखाय इवौषट स्वः कवचाय हुं ॐ भुर्भुवः स्वः भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ओगुं सत्यं तत्स्त्रिपदा ॐ आपोज्योदी रसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ सूर्यश्चेत्यादि ॐ आपः पुनन्त्वित्यादि ॐ अग्निश्चेत्यादि ओम आयादु वरदा देवी पूर्वाग्ने ब्रह्मदेवता कायत्री नामया सन्ध्या रक्ताङ्गी रक्तवाससा रक्ष्णा वरहंससमारूढा श्रीमत्पुष्करसंस्थिता कमण्डलुधरा अक्षमाला विधारिणी आयादुवरदादेवी मध्याह्नेश्वेतरूपिणी माहेश्वरी च सावित्रिशुक्लवस्त्राधिमण्डिता वृषस्कन्धसमारूढा त्रिशूलवरदारिणी आयादुवरदादेवी अपराह्ने सरस्वती अदसि कुसुमप्रख्या वैष्णवी गरुडासना पीतवस्त्रा शङ्खचक्रगदा पद्मसमन्विता श्वेतवर्णा समुद्दिष्टा रविमण्डलसंस्थिता श्वेतपद्मसनासीना श्वेतपुष्पोपशोभिदाम् आपोहिष्ठा मयो भुवस्थानऊर्जे दधा धना महेरणाय ॐ यो वः तस्य भाजयते नः अशतीरिव मादरः ॐ तस्मा अरङ्ग मा मा वो यस्य क्षया यजिन्वद आपो जनयथाचनः ॐ सुमित्री या न आपवोषधय सन्धु ॐ दुर्मित्री यास्तस्मै सन्धु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॐ मुचान स्विन्नस्नादो मलादिवा पूदं पवित्रेणे वाजमापः शुन्धन्धुमैनसफं ऋतं च सत्यं चाभीदात्तपसोऽध्यजायद तदोरात्र्यजायद तदसमुद्रोर्नवसमुद्रादर्नवादधि संवत्सरो अजायद असौ रात्राणि विदधद्विश्वस्य मिश्रतो वशी सूर्याचन्द्रमसौदायधा पूर्वमकल्पयद दिवं च पृथिवीं चान्दरीक्षमधो स्वः गायत्र्या विश्वामित्रऋषिर्गायत्रीचन्दः सविता देवता जपे विनियोगः ओम् उद्दुत्यम् जातवेदसन्देवम् वहन्ति केदवः दृशे विश्वाय सूर्यम् ओम् चित्रम् देवानामुदगाधनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्या वा पृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्तुषश्च ॐ तच्चक्षुर्देवहिदम् पुरस्तात् शुक्रमुच्चरद पश्येम शरदशतं जीवेम शरदशतं शृणुयाम शरदशदं ॐ विश्वतक्षु विश्वतश्चक्षुरुद विश्वतो मुखो विश्वतो बाहुहृद विश्वतस्पाद सम्बाहुभ्यां धमधि सपत्रायद्यार्वा भूमि जनयन्देव एकः देवा गादु विदो नांग देवागा विद्वाद मनसस्पत इमं देवयज्ञ स्वाहा वह ते धा जपेद भूम्यां पर्वद वासिनी भूम्या पर्वतवासी ब्रह्मणा समनुादागछदेवी यथा सुखम श्रीगारूडे महापुराणे आचारकाण्डे सन्ध्याविधिनिरूपणं नाम सप्तदशोत्तरद्विशततमोऽध्यायः ओ अध्यायं टु हण्ड्रेड् अण्ड् एय्टीन् ब्रह्मोवाचा व्यासश्राद्धमहं वक्ष्ये भुक्तिमुक्ति